विष्णोर्नुकम् वीर्यानि प्रवोचम् यः पार्थिवानि विभवे रजागम् अस्कभागदुत्तरगम् सधस्थम् विचक्रमाणस्त्रेधोरुगाजो विष्णो रराटमति विष्णो आस्पृष्ठमति विष्णोश्चप्रेयेस्थो विष्णो स्यूरसि विष्णो आर्ध्रुवमसि वैष्णवमसि विष्णवेत्वा तदस्य प्रियमभिपाथो नरो यत्र देवजभो मदन्ति उरुक्रमस्य स हि बन्धुरित्था विष्णो परमे मध्व उत्सः प्रतद्विष्णोस्तवते वीर्याज मृगो न भीमः कुचरोगिरिष्ठाः अक्षक्षियुवना विश्वा पर तुधान ने महिवी परमस्य पृथिव्याो विचक्रमे पित् विचक्रे पृथिवीमेशता क्षेत्राजविष्णुर्मनुषे दशस्यन् ध्रुवासो अस्य गीदजोचनासः उरुक्षितिगुम्सुजनिवाचकार त्रिर्धेवः पृथिवीमेष एताम् विचक्रमेश चर्चसंमहित्वा प्रविष्णुरस्तु तव सस्तबीजान् ेषगृह्यस्य स्थविरस्य नामा अतो ओ देवा अबन्तु नो यतो विष्णुर्विचक्रमे पृथिव्याः सप्तधामभिः इदम् विष्णुर्विचक्रमे त्रेधानि दधे पदम् स त्रीणिपदा विचक्रमे विष्णुर्गोपा अदा आभ्यः ततो धर्माणि धारयन् विष्णोः कर्माणि पश्य तजतो आव्रतानि पस्पशे इन्द्रस्य युज्यः सखा तद्विष्णो आ परमम् पदगम् सदा पश्यन्ति सूरजः दिबिवचक्षुराततम् तद्विप्रा आसोऽ विपन्यवो ओजाग्रिवाम्समिधते विष्णोर्यत्परमम् पदम् पर्या आप्त्या अनन्तराजाज सर्वस्तो मोति रात्र महर्भवति सर्वस्य यै सर्वस्य यै सर्वमेवतेना आप्नोति सर्वम् जयति ओम् शान्तिः शान्तिः शान्तिः